अथर्ग्वेदे चतुर्थाष्टके सप्तमोऽध्यायः ओ इन्द्रम् गो नरः सख्यायसेतुम् महोयन्द्रः सुमतये च कानाः महोहिदाता वज्रहस्तो अस्ति महामुरण्डमवसेयजध्वम् आयस्मिन्हस्ते नर्यामिमिक्षुरारथे हिरण्यजे रथेष्ठाः आरश्मयोगभस्योस्थूरयोरान्नश्वाः सो वृषणो जुजानाः श्रियेते पाधातु वहामिक्षुरुतृष्णुरुपज्लीषवसा दक्षिणावान् वसा नो अत्कम् सुरभिन्दृषेकम् स्वा अर्णधृतविशिरो बभूत् स सो महामिश्लतमः सुतो भोद्यस्मिन् भक्तिः पच्यते सन्ति धानाः इन्द्रन्दरस्तुवन्तो ब्रह्मकारा उत्थाशंसन्तो देववातमाः न ते अन्तः शपसोधाय्यस्य पितुभापथे रोदसीमहित्वा आतासुरि सूरिः पृणतितो तु जानो यो हेवाप्सु समीजमान ऊती एवेदिन्द्रः सुहवर्श्वो अस्तुति अनू देहिरिशप्रः सत्ताः एवाहि दातो असमात्योदाः पुरोचरुत्राहनतिनिदस्योन् भूय इद्वावृते वीर्याः ये को अदुर्योदयते वसूनि प्रलिते दिवन्द्रः पृथिव्या अर्धमिदस्य प्रतिरोदसी उभे अथा मन्ये बृहद सुयमस्य यानि दाधारणकिरा दिवे दिवे सूर्यो दर्शतो भूद्विसद्मान्युर्भिया शुक्रतुर्धात् पद्या चिह्नो चित्ततपो नदीनायदाभ्यो अरदो गातुमिन्द्र निपर्वता अद्मसदो न से दुष्टया दृह्णानि सुक्रतोरजांसि सत्यमित्तन्नत्वा अन्यो अस्तीन्द्र देवो न मत्योऽज्यायान् अहम् नहिम् परिशया न वा सृजो अपो अच्छाः समुद्रं त्वमपो विदुरो विशो चिरिन्द्रदृह्णमरुजः पर्वतस्य राजा भवो जगतश्चर्षणीनाम् साकम् सूर्यम् जनयञ्जामुषासम् अभूरेको रजिपतेरजीणामा हस्तयोरधिथा इन्द्रकृष्टेः वितोके अप्सुतनये च सूरे वोचन्तचर्षणयो विवाचः त्वद्भिजेन्द्रपार्थिवानि विश्वाच्युताचिच्या वयन्ते रजांसि द्याः क्षामा पर्वता सोपनानि विश्वम् दृढम्भजते अज्मन्ना ते त्वम् कुत्सेनाभिषुष्टमिन्द्राशुषञयुध्यकुजमङ्गविष्टौ दशत्प्रपित्वे प्रपित्वे अथ सूर्यस्य मुषायश्चक्रमविवेरपांसि त्वम् शतान्यवशम्बरस्य पुरो जघन्थालीरितस्योः अशिक्षो यत्र सच्या शचीवो दिवो दासाय सुन्दते सुतक्रे भरद्वाजाय गृणते वसूनि स याहे या हि प्रपथिन्नवसोपमद्रिग्प्रजश्रुतश्रावय चर्षणिभ्याः अपूर्व्यापुरुतमान्यस्मै महे वीराय तपसेतुराय विरक्षिणे वज्रिणे सन्तमादिवजाम् स्यासा स्थभिराय तक्षम् स मातरा सूर्येणाकवीनामवासय द्रुजदग्निम् गृणानः स्वाभिरक्वभिर्वा वशान उदुश्रियाणामसृजम् निदानम् सन्निभिरक्वभिर्गो धुषुष्मन्वितज्ञुभिः पुरु कृत्वाजिगाया पुरः पुरोहासखिभिः सखीयम् दृढारुरोदकविभिः कविः सन् स देव्याभिर्जरिता रमच्छामहोवार्ये ब्रह्महद्भिश्च सुष्मैः ीराभिर्वृषभिते नामागिणः सुज प्रजा हि स सर्गेण शमसा तक्तो अत्यैरप इन्द्रो दक्षिणतस्तु राशाट् रित्था सृजाना अनपावृतर्थम् दिवे दिवे विविशुरप्रभृश्यम् य ओधिष्ठ इन्द्रतम् सौवश्म्यं यो वनवत्सुश्वो वृत्रा स वत्सु सा सहतमित्रान् त्वां हि ईन्द्रावसेविवा चोहवन्ते चर्षणयशूरसातौ त्वम् विप्रेभिर्विपणीङ्ग्रशायस्त्वतरित्सनितावाजमर्वा र्वने वसुधितेभिरत्खैरावृत्सु दर्शि दृढान्द्रतम स त्वन्न इन्द्राकवाभिरुते सखाः विश्वायुलभिता वृधे भोः स्वर्षातायुध्यसित्वा युध्यन्तो नेमर्हिता वृत्सुशूरा नूनन्न इन्द्रापराय तस्या भवा मृळेक उतनोः अभीष्टौ इत्था गृणन्तो महिनस्य शर्मन्ति विश्यामपार्ये एकोशतमाः सञ्चर्ते जग्मुर्गिर इन्द्रपूर्वैर्विषत्पद्यन्ति विभ्रो मनीषाः पुरा नो नञ्च स्तुतयर्षीणाम् पस्पृध्र इन्द्रे अध्युक्तार्का पुरुहूतो यः पुरुगोर्तर्भ्याङ्गेकः पुरप्रशस्तो अस्त्यज्ञैः रथो न महेशवसे युजानोस्माभिरिन्द्रो अनुमाद्यो भूर् नयम् हिंसन्ति धीतयो न वाणीरिन्द्रन्नक्षन्तीदभिवर्धयन्तेः यदि स्तोतारश्यतञ यत्सहस्रम् गृणन्ति गुर्वणशंशन्तदस्मै अस्मा एतद्दिव्या अर्चवमासामि भिक्ष इन्द्रे न्ययामि सोमाः जनन्न धन्वन्नभिसंयलाभः सत्रा वाृथुर्हवनादि यज्ञैः अस्मा एतन्मह्याङ्गूषमस्मा इन्द्रायस्तोत्रम् अतिभिरवाचि असद्यथा महतिरुत्रतोर्य इन्द्रो विश्वायुरपितावृथश्च कदा भुवन् पृथक्षया यद्ब्रह्म कदा स्तोत्रे सहस्रपोष्यन्दाः कदा स्तोमम् आसयोऽस्य राजा कदाधियः करशिवाजरत्नाः कर्हि स्वित्तलिन्द्रयेन्द्रभेन्द्रन् वीरैर्वीरान्नीरया आसेजयाचीन त्रिधातुगा अधिजया शिगोष्विन्द्रद्यम्नम् स्वरध्ये ह्यस्मे कर्हि स्वित्तलिन्द्रय चरित्रे विश्वप्सुब्रह्म कृणवश्यविष्ठा कदा धियो न नियुतो युवासे कदा गोमघा हवनानि गच्छाः स गोमघा चरित्रे अश्वश्चन्द्रावादश्रवसो अधिथेहि वृक्षाः पीपीशुदुघामिन्द्रधेनुम् भरद्वाजेषु सुरुचोरुच्याः तमा नूनम् वृजनमन्यथाचिच्छोरो यच्छक्रविदुरो गृणेशे मा निरलंशुक्रदुगस्य धेनोराङ्गिरसान् ब्रह्मणाभिप्रजिन्व सत्रा मदासस्तव विश्वजन्याः सत्रा राजोऽध्यये पार्थिवासः सत्रावाजा नाम भवो विभक्ता यद्देवेषु धारयथा असुर्यम् अनुप्रये जे ओजो अस्य सत्रादधिरे अनुवीर्याय व्योमगृहे दुथये नृपते चक्रतुम् रञ्जन्त्यभिरत्र हत्ये तम् सद्धृते रुतयो वृष्ण्याः निपोंस्याः नियुतः सश्चुरिन्द्रम् समुद्रम् न सिन्धः उक्थशुष्मा उरुङ्गिरः आविशन्ति स रायस्खामुपसृजा गृढारः पुरुश्चन्द्रस्य त्वमिन्द्रमस्वाः पतिर्बभूधा समो जना नामेको विश्वस्य भुवनस्य राजा स चश्रुधिश्रुत्यायो दु वो युर्दौर्णभूमाभिरायो अर्यः असो यथा न शवसा च युगे युगे वयसा चेकितानः अर्वाग्रथम् विश्ववारन्त उग्रेन्द्रयुक्तासोहरयो सोहरयो कीरिश्चिद्धित्वा हवते सर्वार्धेमहि समारस्ते अद्य प्रोद्रोणे हरयः कर्मा आग्मन् पुनासर्ज्यन्तो अभूवन् इन्द्रो नो अस्य पूर्वः पीयाद्युक्षो मदस्य सोम्यस्य राजाः आस्राणासश्रवसानमच्छेन्द्रम् सुचक्रे रथ्याः सु अश्वाः अभिश्रवर्ज्यन्तो वहे यर्नो चिन्नु वाजो रमृतम् वरिष्ठो अस्य दक्षिणामि यतेन्द्रो अमघो नाहम् तु विकूर्मितमः यया आवज्रिणः पर्यास्यम्भो अमघा च तृष्णोदयसेऽपि सूर्येन इन्द्रो वाजस्य स्थविरस्य तातेन्द्रो अगीर्भिर्वर्धताम् वृद्धमहाः इन्द्रो अवृत्रमनिष्ठो अस्तु सत्पाता सूरिः पृणसितो तु जानः ुधुनश्चित्रतमो महीम् भर्षद्युमतीमिन्द्रहोतिम् पन्यसेन्धेतिम् दैवस्य यामञ्जनस्य रातिम् वनते सुदानोः दूराश्चिदावसतो अस्य कर्णाघोषादिन्द्रस्य संयति ब्रुवाणः एयमेनम् देवहोतिर्ववृत्त्यान्मद्र्या अगीन्द्रमियवृत्यमाना तम्बो अधियापरमयापुरायामज रमिन्द्रमभ्यमो शर्कैः ब्रह्मा च गिरोदधिरे समस्मिन्महांश्यस्तो भो अधिवर्धवीन्द्रे वर्धाद्यम् यज्ञ उत सो मनीन्द्रम् वर्धाद्ब्रह्म गिर उक्था च मन्मा वर्धा हैनमुषसो यामन्नक्तोर्धान्मा सा शरदोऽद्यामीन्द्रम् एवाजज्ञानम् सहसे असाविवारुधानम् राधसे च श्रुताय महामुग्रमवसे विप्र नून मा विवासे मृत्रतूर्येषु मन्द्रस्य कपेर्दिव्यस्य वह्नेर्विप्रमन्मनोवचनस्य मग्धाः अपहानस्तस्य स जनस्य देवेषो युवस्व गृणते गो रुचदरुग्नम् विफलस्य सानुम् पणी नृवचोभिरभियो धरिन्द्राः अयन्द्योतयदर्ज्युतोऽव्याहक्तो दोषावस्तो शरद इन्दुरिन्द्र इमङ्केतुमदधुर्नोचितं शुचिजन्मन उषदश्चकार अयं रोचयदरुचोरुचारोयम् वासयद्विऋतेन पूर्वेः यमे यतयुभिरश्वर्विदानाभिनादर्षणिप्राः नो गृणा नो गृणते प्रत्नराजन्निषः पिन्वसुदेयाय धूः अप ओषधीरविषावना निगा अर्वतो इन्द्रपितुभ्यम् सुतो मदाया वस्य हिविमुचासखाय उत प्रगाय गणः आनिषद्याथायज्ञाय गृणते वयोधाः अस्य विभयस्य जज्ञान इन्द्रमदाचक्रत्वे अपि बो विरप्सिन् तमुते कापो नोरद्रिरिन्दुम् समह्यन् पीतये समस्मै समिद्धे अग्नौ सुत इन्द्रसोप आर्त्वा वहन्तु हरयो वहिष्ठाः त्वायतामनसा यो हीमीन्द्राया आहि सुविताय महेनाः आया आहि जाथेन्द्र महामनसा सोपपेयम् ब्रह्माणि शृण्व इमानोधा ते यज्ञस्तन्वे योधात् यदिन्द्रदिपार्ये यदृर्यद्वास्मे सदने यत्र वासे अतो नो यज्ञमवसे नियुत्पान्सजोषाः स्वाहि गिर्वणो मरुद्भिः अहेळमान उप याहि यज्ञम् तुभ्यम् गावो न वज्रिन् स्वमोको अच्छेन्द्रागरि प्रथमो यज्ञियानाम् या ते काकुत्सुकृताया वरिष्ठाय या शश्वत्पिपसि मध्व ऊर्मिम् तया आपाहि प्रते अध्वर्युरस्थात्सन्ते वज्रो वर्ततामिन्द्रगव्यो एषद्रप्सो वृषभो विश्वप इन्द्राय वृष्णे समकारि एतम् विवहरिवस्थातरुग्रयस्ये शिषे प्रतिभियस्ते अन्नम् सुतसोभो असुतादिन्द्रवस्या आनयम् श्रेयाञ्जितु शेरणा आया एतन्ति तिर्व उपयाहि यज्ञम् देन विश्वास्तविशीरावृणस्व त्वया आमसिन्द्रया ह्यर्वागरम् दे सोमस्तम्बे ए भवाति शतकृतो मादयस्वा सुते सुप्रास्वा सुप्रभिक्षु प्रत्यस्मैपि ईशते विश्वानि विदुषे भर अरङ्गमाय जग्मये पश्चाद्दग्मने न रे एमे एनम् प्रत्येतन सोमेभिः सोमपातमम् अमत्रेभिररजेषिणमिन्द्रम् सुतेभिरिन्दुभिः यदीषुतेभिरिन्दुभिः सोमेभिः प्रतिभूषथ वेदा विश्वस्य मेधिरोधिषत्तन्तमिदेशते अस्मा अस्मा इदम् धसोद्धर्म्यो प्रभरा सुतम् कुवित्समस्य तेन्यस्य शर्धतोऽभिषस्तेरभस्फरत् यस्य त्यक्षम्भरम्मदे दिवो दासाय रन्ध्राः अयम् स सोम इन्द्रते सुतः पिबा यस्य तीव्रसुतं मदं मध्यमन्तम् च रक्षसे अयम् स सोम इन्द्रते सुतः पिबा यस्य वा मदे दृढा अवासृजः अयं स सोम इन्द्रते यस्य मन्दानो अन्धसोमा गोनन्दधिशेषाः अयं स सोम इन्द्रते सुतः पिब यो रयो रयिन्तमो योजुम् नैर्ज्युम्नवत्तमः सोमः सुतस्य इन्द्रतेऽस्ति स्वधापते मदाः यश्शग्मस्तु विषग्मते येन वृद्धो न शपसा तु नः स्वाभिधिभिः सोमः सुतः स इन्द्रदेऽस्ति स्वधापते मदाह यमुवो अप्रहणम् गृणेशेशवसतिम् इन्द्रम् विश्वासाहनष्ठम् यम् वर्धयन्तीद्गिरःपतिम् दुरस्य राधसः पिपोनयस्योतयोऽपि यद्रोहन्ति सक्षिताः अविदर्दक्षम् मित्रोऽनबीयान्तपानो देवेभ्यो वस्यो अचैत ससमांस्तौलाभिर्धौतदेभिरुष्यापायुरभवत्सखिभ्यः नृतस्य पथिवेधा अपायि श्रिये मनांसि देवासो अक्रन् दधा ुमर्थमन्दक्षन्धे ह्यस्मे सेधा जनानाम् वर्षी योपयः कृणुहिभिर्धनस्य साता भस्माङ्गविड्ढि इन्द्र तुभ्यमिन्मघवन्नहम वयम् रात्रे हरिवोमा विबे नः न किरार्दृशे मर्त्यत्रा किमङ्गलध्रचोदनन्ताहुः माजस्वने वृषभणोरीथा मा ते एरेवतः सख्ये पूर्वेष्ट इन्द्रनिश्चितो जने एषु जह्य सुष्वेन् प्रभृहा वृणदः उदभ्राणे एव स्तनयन्नियत्तेन्द्रो राधांस्य श्या आदिगव्याः तुमसि प्रतिभः कारुधा आयामात्वादभन्मघो नाः अध्वर्यो वेरप्रमहे वे राजा यः पूर्व्याभिरुतनूतनाभिर्ग्येर्भिर्वा वृधेर्णतामृषीणाम् अस्य मदे पुरुवर्पांसि विद्वानिन्द्रो वृत्राण्यः प्रतीजघान तमुप्रभोमन्दमस्मै सोमम् वीराय शिप्रिणेऽपि पाता सुतमिन्द्रो अस्तु सोमं हन्ताः वृत्रम् व्रज्रेण मन्दसानः गन्ता यज्ञम् परापतश्चिदच्छावशुर्धी नाम विताकारुथायाः इदम् यत्पात्रमिन्द्रपानमिन्द्रस्य प्रियममृतमपाये मत्सद्यथा असौ मनसाय देवाया अस्मद्वेषो अजुत ब्रह्माः ये नाम दानो जधिषो रशत्रो उञ्जामि मदामिम् मखमन्हमित्राय अभिषेणाङ्गभ्या आदेशान्परा च इन्द्रप्रमिणाचही च आशुष्माणो मघवन्दिन्द्र मृत्स्वा अस्मभ्यम् महि मरिवः सुगङ्काः अपान्तोकस्य तलयस्य देश इन्द्रसूरेन्द्र महिष्मानो अर्धम् आत्वा हरयो वृषणो युजाना वृषरथासो वृषरश्मयोत्या अस्मत्राञ्चो वृषणो वज्रवाहो वृष्णे मदाय सुयुजो वहन्तु आ ते वृषन् व्रिशन विषणो द्रोणमस्थुरुधृतपृषो नोर्मजो मदन्तः इन्द्र प्रदुभ्यम् वृषभिः सुतानाम् वृष्णे भरन्ति वृषभाय सोमम् वृषा दिवो वृषभः पृथिव्या वृषा ृष्णेत इन्दुर्पाय स्वादूरसो मधुपेजोपराय अयम् देवः सहसा जायमान जा इन्द्रेण युजापणिमस्तधायत अयम् स्वस्य पितुराजुधानीन्दुरमुष्णादशिवस्य मायाः अयमकृणो दुषसस्वपत्नेरयम् सूर्ये रताब्ज्योतिरन्तः अयम् त्रिधातुचनेषु त्रिकेषु विन्दतमृतम् निगूढम् अयम् द्यावा पृथिवी विष्कपाय दयम् रथमयुनः सप्त लक्ष्मिम् अयङ्गोषु शच्याः पक्वमन्तः सोमो ौ प्रत्यञ्च वनुरोमौ विसर्गाः वेतन्तत्सम् नखश्च पृष्ठश्च करौ च बाहो जङ्घे चोरो उदरम् शिरश्च रोमाणिमांसं रुधिरास्थिमज्जमेतच्छरीरम् चलभुद्भुतोपमम् भ्रुवौ ललाटे ला च रथा कर्णौ हनो कपोरौ चुमुकस्तथा दन्ताश्च तथैव निष्वामेतच्छरीरम्नकोशम् यानयत्वरावतः सुने चेतुर्वसंयतुम् इन्द्रः स नोजुवासखा अभिप्रेचिद्वयोदधनाशुना चिगर्वता इन्द्रोजेताहितन्धनम् महेरस्य प्रणेतयः पूर्वे सखा आयो ब्रह्मवाहसेर्चत प्रचगायत स हि न प्रमतिर्महे त्वमेकस्य वत्रहन्न भिता द्वयो ओरसि यथा आ वयम् नयसेद्वतिद्भिषः कृणो शुक्थशंसिनाः नृभिः सुवीर उच्यसे ब्रह्माणम् ब्रह्मवाहसङ्गीर्भिः सखा आय मृग्भियम् न्नदोहसे हुवे यस्य निश्वानिहस्तयो रोचनुवसो निनिद्भिता वीरस्य व्रतनाशहाः विदृह्णानि च दुद्रिभोपुनाम् शचीपते बृहमाया अनानता तमुत्त्वा सत्यसोमपा इन्द्रवाजानाम् पते अहो महि श्रवस्य वाः तमुत्त्वायः पुरासिथयो वा नूनम् हिते धने अं यः सश्रुधीहवम् धीभिरर्वद्भिरर्वतो वाजाङ्गिन्द्रश्रवाय्यान् तयाजेष्महितन्धनम् अभूर्वीरगिर्वणो महाङ्गिन्द्रधने हि ते धरे एतन्तसाय्याः यात ऊतिरमित्रहन्मक्षोजवस्तमासति तया नो हि नु हीरथम् सरथेनरथी तमोऽस्माके एनाभियुग्मना जयशीष्णो हितन्धनम् य एकवित्तमुष्टु हि कृष्णीनाम् वितर्षणिः पतिर्जज्ञे वृषक्रतुः योगृणतामिदासिथापि रोदी शिवः सखाः सत्वन्न इन्द्रमृणय विष्वज्रङ्गमस्त्यो रक्षो हत्या यवज्रिवः सासहेष्ठा अभिस्पृथाः रत्नम् रजीणायुजम् सखा आयङ्की निचोदनम् ब्रह्मवाहस्तमम् भुवे स हि निपत्यते गिर्वणस्तमो अध्रिगुः सनो नो नियुद्भिराप्रणकामम् वाजेभिरश्मिभिः गोमद्भिर्गोपते धृषत् तद्वो गायसुते स सत्वने शय्यद्गवेन न खावसु नियमते दानम् वाजस्य गोमतः यत्सेमुपश्रपद्गिराः पुत्सस्य प्रहिरजम् गोमन्दस्युहागमत् शचीभिरपनो वरत् इमा उत्पाशतक्रतोऽभिप्रणोऽनुभुर्गिराः इन्द्रवत्सन्न मातराः दोडाशम् सख्यन्तवगौरसि वीरगम्यते अश्वो अश्वायते भव समन्दस्वाह्यन्धसो राधसे तन्वा महे न स्तोतारम् इमा उक्त्वा सुते सुते नक्षन्ते गिर्वडो गिराः वत्सङ्गाभो न धेनवाः पुरोत्तमम् पुरूणाम् स्तोतॄणाम् विवाचि वाजेभिर्वाजयताम् अस्माकमिन्द्रभूतु ते स्तो भो वाहिष्ठो अस्मान्द्राजे महेहि नो अभिभृगुःपणीनाम् वरसिष्ठे मूर्धन्नस्थात् उरुः कक्षो न गाङ्ग्यः यस्य वायोरिभद्रवद्भद्रारातिः सहस्रिणी ए सद्यो दानाजमं हते तत्सुरो विश्वे ए अर्य आसदा गृणन्ति कारवाः भृगुम् सहस्रदातमम् सूरिम् सहस्रसातमम् ि हवावहमहे सातावाजस्य कारवाः त्वाम् ऋत्रेष् सत्पतिन्नहस्ताम् काष्ठाः सर्वतः सर्पन्नश्चित्रवज्रहस्तधृष्णुयामहस्तपानो अद्रिवः गामश्वम् रक्षमिन्द्रङ्गिरसत्रा वाजन्न जिग्युषेः यः सत्राभितर्षनिरिन्द्रन्तम् होमहे भयम् सहस्रंकतुमत्सुनो वृधे बाधसे जना मञ्जुना ऋषौ वीळर्जीषम अस्माकम् बोध्य पितामहधने ततोष्वप्सु सूर्ये इन्द्रज्येष्ठम् न आभरङ्गोऽजिष्ठम् वपुरिश्रवाः ये नेमे चित्रवज्रहस्तरोदसी ओभे सुिप्राः त्वामुग्रमवसे चर्षणे सहम्राजन् देवेषु होमहे विश्वासु नो विधुरा पिब्दनावसो विप्रान् सुषहान्कृधि यदिन्द्रनाहुषीष्वाङ्गोजो नृम्णम् च कृष्टिषु यद्वापञ्च क्षितीनान्ुम्नमापरसत्रा विश्वा निपोंस्याः यद्वातृक्षोमघवम् द्रह्यावाजने यत्पूर्वौ गच्छवृष्ण्यम् अस्मभ्यम् दद्रिरे सन्दृशाह्ये मित्रान् दुर्वणे इन्द्र त्रिधातु शरणम् त्रिपरोधम् स्वस्ति मत् छर्दिर्यच्छ मघवद्भ्यश्च मह्यम् मनसा शत्रुमादभुरभिप्रघ्नन्ति अधस्मानो मघवन्निन्द्रगिर्वणस्तनोपा अन्तमो भव अधस्मानो वृथे भवेन्द्रनायमवायुधि यदन्तरिक्षे पदयन् द्विपर्णिनो युद्यमस्तिग्मोऽर्धानः यत्र शूरासस्तन्वो वितन्वते प्रियाशर्मपितॄणा अधस्मायच्छतन्वे या एतनेतच्छब्दिरतितम् यावयद्वेषाः ययिन्द्रसर्गे या अर्वतश्चोदयासे महाधने असमने अध्वनिर्जिने पथिष्येनाङ्गिवश्रवस्यतः सिन्धोन्द्रिमप्रवण आशुयायतो यदि क्लोशमनुष्मणि आयेव यो न परवृतत्यामिषिगृभीता बाह्वोर्गवि स्वादुष्किलाजम् मधुमाङ्कुतायन् तीव्रः किलायम् रसभाङ्कुतायम् उतोऽन्वा अस्य पिवाम् समिन्द्रन्न सहता हवेषु पुरोडियश्चौत्ना शम्बरस्य पिनपतिन्न वेह्योहन्न अयं मे ए पीत उदि यतिवाचमयम् मनीषामुशतीमजीगः अयम् षडुर्वीरमितधीरो नयाभ्यो भुवनङ्करारे अयम् पीजोषम् त्रिसृषु प्रवत्सु सोमोदाधारोर्वा अन्तरिक्षम् अयम् विदच्चित्रदृशीकवर्णशुक्रसद्मनामुषसामलीके अयम् महान् महता स्कम्भनेनोद्यामस्तभ्नाद्विषभो मरुत्वाय ृषत्पिकलशेषोममिन्द्रहाशूरसमरे वसूनाम् माध्यन् दिने सपनावृषस्वरः स्थानो रयिमस्मासु धेः इन्द्रप्रणः पुर एतेव पश्य प्रणोनयप्रतरम् वस्यो अच्छा भवासु पारो अतिपारयो नो भवासुनीतिरुवामनीतिः उरुन्नो लोकमुषि विद्वान् स्वरज्योतिरभयम् स्वस्ति रुष्पात इन्द्रस्थभिरस्य बाहु उपस्थेयामशरणा बृहन्ताः वरिष्ठेन इन्द्रबन्धुरेधामहिष्ठयोश्च ता वन्दश्वयोरा निषमापक्षेषाम् वरिषिष्ठाम् मानस्तारेन्मखवन्द्रायोः अर्या इन्द्रमृणमह्ययम् जीवातुमिच्छ चोदयधियमयसोनधाराः यत्किञ्चाहन्तायुरिलम्बदामिलज्जुषस्वकृतिमा देववन्तम् त्राता रमिन्द्रमविता रमिन्द्रम् हवे हवे सुहवंशो रविन्द्रम् क्वयामि शक्रम् पुरुहोतमिन्द्रम् स्वसिनो मघवाधात्विन्द्राः इन्द्रः सुत्रामास्पपाकवोऽभिः सुमृळीको भवतु विश्ववेदाः बाधतान्द्वेषो अभयम् कृणोतु सुवीर्यस्य पतयस्याम तस्य भयम् सुमतौ यज्ञ यस्यापि भद्रेऽसौ मनसे स्याम स सुत्रा मा स्व इन्द्रो अस्मे आराचिद्वेषः सनुतर्युजो तु अपत्ते इन्द्रप्रमतो दोर्मिर्गिरो ब्रह्माणि नियुतो धवन्ते गुरो न राधः सपना पुरोण्यपोघावज्रिन्युवशे समिन्दो नृणात्को यजाते पादाविव प्रहरन्नन्यमन्यम् कृणोति पूर्वमपरं शचीभिः शृण्वे वीर उग्रमुग्रन्थमायन्नन्यमन्यमतिने नीयमानः एतमानद्भिलुपयस्य राजा चोष्कूयते विष इन्द्रो मनुष्यान् परा पूर्वे येषाम् सख्या वृणक्ति वितत्तुराणो अपरेऽभिरेति अनाहानुभूतेरवधोन्मानः पूर्वैरिन्द्रः शरदस्तर्तरीति रूपम् रूपम् प्रतिरूपो बभूवत तस्य रूपम् प्रतिदक्षणाय इन्द्रो ओ मायाभिः पुररूप ईयते युक्ता ह्यस्य हरयः शतादशा द्विजादो को विश्वाहा द्विशतः पक्ष आसल उतासी अगम्योतिक्षेत्रमागन्म देव उर्वीसते भूमिरम्मो रणाभूत् बृहस्पते प्रचिकित्सागविष्टा विच्छासते जरित्र इन्द्रपन्थाः दिवे दिवे सदृशैरन्यमर्थम् कृष्णा असे धसद्मनोजाः अहम् दासा वृषभो वस्नयन्तो दौरजे वर्चिनम् शम्बरम् प्रस्तोक इन्दुराधशस्त इन्द्र दश कोशीर्दश वाजिनोदात् दिवो दासादतिष्ठिग्वशः स राधशाम् बरम् वसुप्रत्यग्रभीष्म दशाश्वान् दशकोशान् दशमस्राधिभोजना दशो हिरण्यपिण्डान् दिवो दासादशा निशम् दशरथान् पृष्टिमतः शतङ्गाथर्वभ्यः अश्वथः पायवेदात् महिरादो अभ्यो हि भूया अस्मत्सखात् वनस्पते सुवीराः गोहिभूया सन्नद्धो असि वीडय स्वास्थाता ते जयतु जेत्तानि दिवः पृथिव्याः पर्योद्भृतम् वनस्पतिभ्यः पर्याभृतम् सहा अपापोज्मानम् परियोभिरावृतमिन्द्रस्य वज्रम् हविषानथम् यज इन्द्रस्य वज्रो अमरुतामने एकम् मित्रस्य गर्भो वरुणस्य नाभिः सेमान्नो अहव्यदातिञ्जुषाणो देवरथः प्रतिहव्यागृभाय उपश्वासय पृथिवीमुतद्याम् पुरुत्रा ते मनुताम् विष्ठितम् जगत् यो स दुन्दुभे सजोरिन्द्रेण बलमोजो अपसेधशत्रू आक्रन्दयपलमोजो नाधानिष्टुरिता बाधमानः अपप्रोथदुन्दुभे दुच्छुना आ इत इन्द्रस्य पुष्टिरसि बीलयस्व आमोरजप्रत्यावर्तयेवाः केतुमद्दुन्दुभिर्वावतीति समश्वपर्णाश्चरन्ति नो नरोऽस्माकमिन्दरथिनो जयन्तु इति चतुर्थाष्टके सप्तमोऽध्यायः